श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अष्टमोऽध्यायः सा स्वैरिण्ये कदा अभूतकाले बहिर्द्वारे बिभ्रती रूपमुत्तमम् मार्ग आगच्छतो भीक्ष्य पुरुषान् पुरुषर्षभं ता शुल्कदान् वित्तवत कान्तान् आगते स्वपयाते सु सङ्केतोपजीवनीम् अप्यन्यो वित्तवान् कोऽपि मामुपैशति भूरिदः एवं दुराशया ध्वस्तनिद्राद्वार्यवलम्बते निर्गच्छन्ति प्रविशति निशीथं समुपद्यत तस्या वित्ताशया शुष्यन्द्रात्रायादिनचेतथा निर्वेदपरमो यज्ञे चिन्ताहेतुसुखावह तस्या निर्विण्यचित्तायां गीतं शृणु यथा मम निर्वेद आशापाशानां पुरुषस्य यथाशतीं न्याशङ्गाज्जातनिर्वेदो देहबन्धं जिहासति यथा विज्ञानरहितो मनुजो मम तां नृप पिङ्गलोवाच अहो मे मोहं विततिं पश्यता विदितात्मनः या कान्तादशतकामं कामये येन संतं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय अकामदं दुःखभयाधिशोक मोहप्रदं दुःखमहं भजे ग्याम् अहो मयात्मा परितापितो वृथा साङ्केतवृत्त्यातिविगर्ह्या वार्तिं वार्तया त्रैणान्नराजयार्थतु सूनुशोच्यान् कृतेन वित्तं रतिमात्मलेक्षति यदस्ति विनिर्मितवंशवस्य स्थोडं तचारो मनखैपि नद्धम् शरन्नवद्वारमगारमेतन्विन्मुद्रपूर्णं मदुपैति कान्यां विदेहानां पुरेशस्मिन्नहमेकैव मूढदे यान्यञ्जान्यमिच्छन्त्य सत्यस्मान् आत्मतान् काममच्चुतान् श्रेत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणां तं विक्रियात्मनैवाहं रमेणेन यथा कियत्प्रियं ते कामाये कामदानराः आद्यन्तमन्तो भार्याया देवा वा कालविध्रुताः नूनं मे भगवान् प्रीतो विष्णुकेनापि कर्मणा निर्वेदोऽयं दुराशाया जन्मे जातसुखावः नैवं श्रीमन्दभाव्याय क्लेशा निर्वेदहेतवः येनानुबन्धं निर्हृद्य पुरुष समप्रेक्षते तेनोपकृतमादाय शीर्षा ग्राम्य सङ्गताः त्यक्त्वा दुराशां व्रजामेतमधीश्वरं सन्तुष्टा श्रद्धेत्यद्यथा जीवति विहराम्यं मुनैवाहं आत्मना रमणेन संसारकूपे पतितं विषये मृषिते ग्रस्तं काला हीनात्मानं कोण्यस्त्रात् मधीश्वरः आत्मैव स्यात्मनो निर्विद्येत यदा यदाखिलात् अप्रमत्त इदं पश्येद्ग्रस्तं काला हि नाजगत् ब्राह्मणोवाच देवं व्यवसितम् अतिर्दुर्लां दुराशां कान्ततर्शयां छित्वोपशममास्थाय शय्यामुपवेशसाम् आसाहि परमं दुःखं नैराश्यं परमं सुखं यथा सञ्चद्यकान्तासां सुखं सुस्वापपिङ्गलाम् इति श्रीमद्भागवते महापुराणे पारमहिं शयितायाम् एककादश स्कंधे अष्टय